गणेशपुराणम् उपासनाखण्डम् अध्यायं फिफ्टिवन् पार्वत्युवाच तव वाक्यामृतेनाहं पीधप्रीत्यास्मि साम्प्रतं परन्तु संशयो मेऽस्ति पूर्वं व्रतमेतन्महीधर आख्यानं केन वा काम कां कां सिद्धिमिदो गमद ये दत्सविस्तरं ब्रूहि संक्षयच्छेदनाय मे यच्छ पृच्छदि यो वक्तिगजाननकथाशुभाः शृणोत्यन्योऽपि यो मर्त्यस्त्रयस्ते पुण्यभागिनः जीवितं सफलं तेषां जन्मज्ञानं च कर्म च ब्रह्मोवाच एवं तया हृदप्रश्नो हिमवानभ्यभाषद वरदस्य गणेशस्य नानाजनकृतं व्रतं हिमवानुवाच शृणु पार्वति वक्ष्यामि संवादं ते पुरातनम् सेदिहासंप्रदस्यास्य सर्वसिद्धिकरस्यः कैलासे गिरिवर्येदुसुखासीनं जगद्गुरुं क्रीडमानं मुदा देवैर्गन्धर्वैः परमर्षिभिः नत्वा स्तुत्वा महातेजाः परिपप्रच्च देव देव जगन्नाथ देवदेवजगन्नाथ भक्तानामभयङ्कर नानाख्यानानि दिव्यानि श्रुतानि त्वत्प्रसादः तृप्तिं नादनगच्छामि पायं पायं सुधामिवा अधुना ब्रूहि मे सर्वार्थ सिद्धितं अनुष्ठानेन यस्याध करस्था सिद्धयो नृणां जायन्ते साधकानां तु वरदस्य प्रसादतः शिव उवाच साधु पृष्ठं त्वया स्कन्द सर्वेषां हितकारकं कथयामि तव प्रीत्या महासिद्धिप्रदम्भुवि विना यकप्रियं तादव्रतानामुत्तमं व्रतं सर्वेषां पुरुषार्थानां साधकं कृत्तिकात्मज विना यज्ञैस्तदा दानैर्जप होमादिभिर्विना सर्वसिद्धिकरं स्कन्दपुत्रपौत्रप्रवर्धनं राजानं राजपुत्रं वा तन्मन्त्रिणमथापि वा वशमानयदिक्षिप्रं व्रतमेदन्महत्तमं महापापोपपापैश्च बहुजन्म सुसञ्चितैः व्रतस्यास्य प्रभावेण तैः पुमान्मुच्यते क्षणादभाजनं सर्वसिद्धीनां जायते मानवो भुवि प्रीदिदं तु गणेशस्य नानेन सदृशं क्षिधौ स्कन्द उवाच तादकस्मिन् भवेन्मासि व्रतमेदन्महोत्तमं निधानं कीदृशं चास्य केन वा चरितं पुरा सर्वमेदन्ममाचक्ष्व यद्यस्ति करुणामयि शिव उवाच नभः शुक्लचतुर्थ्यां तु स्नात्वा गुरुगृहं गुरु व्रजेद गुरु गुरु प्रणम्यतं गुरुं पश्चात् पूजयित्वा यथाविधि पाद्याच्चमनवस्त्राद्यैर्भूषणैश्च महत्तरैः तोषयित्वा तु दं सम्यगाज्ञया प्रारभेद्व्रतम् सर्वसिद्धिकरं तादव्रदं गाणेश्वरं गुरो त्वमेव श्रीगणेशोऽसि दिशकामप्रदं प्रभो उपदिष्टे व्रते तेन सार्धं गङ्गातडं व्रजेद तडागं वा देवखादं तत्र स्नायाद्यथा विधि स्वेदसर्षपयुक्तेन तिलकल्केन षण्मुख स्नात्वा धात्रीयुधेनेह कृत्वा नित्यं गृहं व्रजेद उपविश्यासने शुद्धे पूजयित्वा गणाधिपम् गुरूपदिष्टमार्गेण व्रतं पश्चात्समारभेद मृदा मूर्तिं गणेशस्य चतुर्थ्यां श्रावणस्य तु प्रत्यक्षं पूजयेत् कृत्वा यावद्भाद्रचतुर्थी का ब्रह्मचर्यव्रते स्थित्वा कर्तव्यं व्रतमुत्तमम् उपवात्सैकभक्ताभ्यां नक्रेनायाचितेन वा चतुर्थकाले भुञ्जीदः विश्यान्नं समाहितः अक्षरं मधुरं भुञ्जन् भक्त्रि मानाचरे व्रदं जपन् गणेश्वरीं विद्यां षडाननषडक्षरीं द्वि चतुरक्षरां वापि तथैवैकाक्षरामपि दशाक्षरामधस्कन्दर्नामधापि वा दशाक्षरामधस्कन्दद्वादशार्णामधापि वा नियुतं वा युतं वापि जप जपयिष्यते तदर्थं वा तदर्थं वा दशांशं होममाचरेद ध्यायन् गजाननं देव महोरात्रमदन्ध्रितः प्राप्ते प्रोष्ठपदे मासि चतुर्ध्यां तु गजाननं सौवर्ण पलमानेन तदर्धाम्रुधेन वा पुनः मयूरवाहनं कुर्यादधवाखुगदं शुभं कृत्वा मण्डपिकां तत्र धान्यराशिं प्रकल्पयेद सौवर्णं राजदं ताम्रं कलशं स्थापयेत्तदप तस्योपरिण्यस्येत्पात्रं रुक्मराजदताम्रकम् वस्त्रयुक्मेन संवेष्ट्य सपात्रं कलशं तदः पञ्चपल्लवसंयुक्तं पञ्चरत्नसमन्वितं पीठपूजां पुरा कृत्वा स्थापयेत्तम तं विभुम् मूलमन्त्रैश्च वेदोक्तैः पूर्वोक्तैरपिषण्मुख ध्यात्वा गजाननं देवमावाह्यपरया परयामुदा आसनं च तथापाद्यं दद्यादाचमनीयकम् अर्घ्यं रत्नयुधं स्कन्धस्नानं पञ्चामृतैः शुभम् सुवासिताभिरद्भिश्च स्नापयेत् परमेश्वरं रक्तवस्त्रयुगं दद्यादुपवीतं तथोत्तमं नानाविधैराभरणैर्भूषयेत् परमेश्वरं गन्धाक्षतैर्धूपदीपैर्नैवेद्यैर्विविधैरपि डकापूपलड्डूकशाल्यन्न पायसादिभिः पञ्चामृतैर्व्यञ्जनैश्च भोजयेत् परमेश्वरम् उध्वर्तनकरे दद्यात्फलं ताम्बूलमेव च काञ्चनीदक्षिणां दद्याच्छत्रं व्यञ्जनचामरे नीराजनं मन्द्रपुष्पं दत्त्वा स्तोत्राण्युदीरयेद सहस्रनामभित्तुत्वा ब्राह्मणान् पूजयेत्तदः रात्रौ जागरणं कृत्वा गेद गीतनृत्यादिमङ्गलैः प्रभाते प्रभादे स्नात्वा नित्यं कृत्वा यधि पूजिए पूर्ववदम सचरेद द्रव्यनाधुवा कुचार्यपूजन गोभू किल हिण्याद्यम गुरवे तन्निवेदयेद अन्येभ्यो ब्राह्मणे प्रदध्यात् भूरिदक्षिणान् ब्राह्मणान् भोजयेत्पश्चाच्छतमष्टोत्तरं तथा अधिकान्यदिशक्तिश्चेदधवाप्येकविंशतिं दीनान्धकृपणेभ्यश्च दद्यादन्नं स पायसम् पुनश्च दक्षिणां दद्यात् प्रगृहयाशिषमुत्तमम् सुहृद् बन्धुयतो मौनी स्वयं भुञ्जीदसादरं शिव उवाच एवं ते कदिदं स्कन्धवरदस्य व्रतं शुभं भुक्तिमुक्तिप्रदं नृणां सर्वकामफलप्रदम् पुरातनमितिहासमस्मिन्नर्थे वदामि ते महाधर्मपरो राजा पुरा भूत्कर्दमाभितः पालयामास वसुधां सागरान्तां स्वतेजसा गुणायुर्यस्य हृदादेव नित्यं यत्सदसि कदाचिद्दैवयोगेन भृगुस्तस्य गृहं ययौ तद उद्धाय राजा स बहुमानपुरःसरम् उपविश्यासने श्रेष्ठे पूजिदो गुरुवत्तदः भुक्त्वा स्थिदं मुनिवरं राजा वचनमब्रवीद राजोवाच भगवन् सर्वतत्त्वज्ञ किञ्चित् पृच्छामि तद्वदा पूर्वजन्मनिकश्चासं किं मया सुकृतं कृतं येनेदृश्यं मया राज्यं प्राप्तं निखतकण्टकं प्राप्तं नैव नृपैरञ्यैर्न च चापरे देवानामपि पूज्योऽहं गन्धर्वो रगरक्षसां कुबेरसम्पदातुल्या सम्पदं पश्यमे मुने त्रिलोक्यां रत्नभूदं यस्तदानीदं स्वतेजसा यं यं पदार्थमिच्छामि तं तं पश्यामि वेश्मनि केनेद्धं कर्मणा प्राप्तं तद्वदस्व मम प्रभो कमये तत्पुनः कर्तुं पुण्यं पुण्यवदां वर भृगुरुवाच कथयामि नृपश्रेष्ठप्रणिधानबलादकं त्वमास्वी पूर्वजनुषिक्षत्रियो दुर्बलशुचिः कुटुम्बभरणार्थं त्वं नानाकर्माण्यधाकरोः प्रियमाणं च तत्कर्म न चासीत्फलदं तव अत्यन्तनिष्ठुरैर्वाक्यैर्धारापत्यैश्च पीडितः अप्रष्ट्वा पुत्रधारांस्त्वं गतवान् गहनं वनम् बिभ्रमं दिक्षु सर्वासु दृष्टवानसि सौभरिं सिद्धासने समासीनं सेविदम् मुनिपुङ्गवैः कथयन्तं महाविद्याम् शिष्येभ्यो दुःखनाशिनीम् दृष्ट्वा तं सौभरिं दिव्यमन्यांश्चर्षि गणानृप दण्डवत्पतितोऽसि त्वं भुवि तैश्चाभिनन्दितः उपविष्टस्वासने च मुनिना तेन दर्शिते पृष्टवानसितं दिव्यं लब्ध्वा वसरमादृतः क्षत्रिय उवाच स्वामिन् संसारदुः बहुधा क्लेशिद मुने धारापत सुहृद्भिश्चाणर्भृशाड़िदराग्यमनोदि निष्ठुषु सुसुच शीतोषुापीडिश मु उपायं वदमे मे किञ्चित् दुःखसागरतारकं शिव उवाच इति श्रुत्वा वचस्तस्य सौभरि कृपयायुतः उपायं चिन्तयामास नृपदुःखविनाशनं तदस्तं क्षत्रियं प्राह सर्वपापविमोचनम् ऋषिरुवाच व्रतं यत् कथयिष्यामि कुरु निश्चितमानसः यस्यानुष्ठानमात्रेण सर्वदुःखलयो भवेत् ब्राह्मणैः क्षत्रियैर्वैश्यैस्तथा ब्रह्मर्षिभिः कृदम् मुक्तास्ते सर्वदुःखेभ्यः प्राप्तासिद्धिमनुत्तमां वरदस्य गणेशस्य धर्मार्थकाममोक्षकृद क्षत्रिय उवाच कोऽसौ गणेश किं शील किं स्वभाववान् किं कर्म कथमुत्पन्न तत्सर्वं कथयस्व मे यदि मे श्रवणायालं यद्यनुग्राह्यता मयि ऋषिरुवाच यद्ब्रह्मनित्यं विरजं विशोकं ज्ञानस्वरूपं परमार्थभूतम् अनादिमध्यान्तमनन्दपारं गणाधिपन्तं प्रवदन्ति सन्तः यस्मादोङ्कारसम्भूतिर्यदो वेदा यदो जगद येन सर्वमिदं व्याप्तम् तम् विद्धिगणनायकम् जगत्सर्जनकामेन ब्रह्मणा यस्य तुष्टये अब्दानाम् तु शदम् पूर्णं तपस्तप्तम् सुदुष्करम् ततो पृष्टमना वेधा प्रसन्नं तमपूजयद नानाविधोपचारैश्च दिव्यरत्नैः फलैस्तथा सिद्धिबुद्धि उभे कन्ये मनसा कल्पिते ददौ तुष्टो देवो ददौ तस्मै विद्यामेकाक्षरीं विभुः तदो लब्धवरो ब्रह्मा चकारसकलं जगद षडक्षरेण मन्त्रेण विष्णुनातोषितः पुरा कृत्वा मूर्तिं गणेशस्य विधिना व्रदं अव्यङ्गं वर्षमेकं तु नियमान् कृतवान् हरिः वरं लब्ध्वा गणेशात्तु पालयामास वैजगद जगद एवंविधां विजानीहि गणेशं भुवि संस्तुतं विश्वरूपमनादिं च सर्वकारणकारणं तमाराधय यत्नेन सर्वदुःखाद्वियुङ्क्ष्यसे क्षत्रिय उवाच कस्मिन्काले प्रकर्तव्यमेदद्व्रतमनुत्तमं विधिना केन मे ब्रूहि साम्प्रतं मुनिसत्तम करिष्ये वचनात्तेकं सर्वदुःखप्रशान्तये मुनिरुवाच श्रावणे बहुले पक्षे चतुर्ध्यामारभेद्व्रतं कुर्वीदपरया भग्रिया यावद्भाद्रचतुर्थिका उपचारैषोडशभिः पार्थिवं गणनायकं प्रत्यकं पूजयेद्धक्रिया ब्राह्मणान् भोजयेत्तदः त्वमेतत् कुरु भूपाल सर्वान् कामानवाप्स्यसि इति श्रुत्वा व्रतं तस्मात् कृतवानसि सुव्रदा समाप्ते व्रते तत्र सौभर्याश्रममण्डले तावत्तस्य गृहं दिव्यं गणेशस्य प्रसाददः दिव्यनारीनरयुधं दासी दाससमन्वितं वेदघोषसमायुक्तं जातं गोधनसंगुलं दिव्यवस्त्रसमायुक्ता नानालङ्कारसंयुता अपत्यैस्तादृशैर्युक्ता विस्मितासीत् प्रतीक्षति आयास्यति कदा भर्तेत्येवं चिन्ता परा भवत् तावत् गतोऽसि निजमालयं दिव्यं तच्छरणं हित्वा स्वगृहम् परिमार्गयन् तावद्धार्या प्रेषितास्त्वां निन्युस्तद्भवनं नराः तदस्त्वयापि विज्ञातः प्रभावो वरदस्य सः व्रतस्य तत्व्रतस प्रभाव राज्यभागिजन्म शिव उवाच यदि श्रुवा भृगोवाक्यं कर्दमो हर्ष निर्भर चकार सकल राजुणा यीद व्रतस्य प्रभावे भुक्त्वा, भोगान्यथा कामं स्थाप्य पुत्रान्निजे पदे गतो गणेश्वरं धाम यतो नावर्तते पुनः सर्वार्थसाधकं स्कन्धव्रतानां व्रतमुत्तमं नैतादृशं व्रतं दानं श्रुतमन्यत्कदाचन सर्वार्थसाधकं स्कन्धव्रतं कुरु यदीच्छसि देवदानवगन्धर्वैहृषिभिर्मनुजैकृतं नलेन इन्दुमत्या च राज्ञा चन्द्रां गदेन च सम्प्राप्ताः सर्वकामांस्ते गदा पदं गिरिरुवाच इति ते कथितं सर्वं सेतिहासं व्रतं महद कुरुत्वं मनसा वरदं गणनायकं व्रतमेदन्महाभागे शङ्करं प्राप्स्यसे ततः स्नेहेन कथितं तेभ्यः प्रकाश्यं कुरु गनेश उपासना खंडे हिमवत पार्वदी हिमवत्वती संवाद नामकम ओम